श्रीहरये नमः अथ पञ्चमोऽध्यायः श्रीशुक उवाच उच्चतुर्मृतकोपान्ते पतितं शोकाभिभूतं राजानं भोतयन्तौ शतोक्तिभिः कोयं शात्तव राजेन्द्र भवान्यमनुशोचति त्वं शाशकतमः सृष्टौ पुरोधानिमतः परं यथा प्रयान्ति संख्यान्ति श्रोतो वेगेन वालुकाः संयुञ्जन्ते वियुञ्जन्ते तथा कालेन देहिनः भवन्ति न भवन्ति च एवं भूतेषु भूतानि चोदितानि शमायया वयं च त्वं तुल्यकालाश्चराचराः जन्म मृत्योर्यथापश्चात् प्राङ् नैव मधुना भूते ससृजत्यवति अन्त्यज्यः आत्मस्त्रुष्टै अश्वतन्त्रै अनपेक्षोऽपि बालवत् देहेन देहिनो राजन्दे कादेकाभिजायते बीजा देवयता बीजं देह्यर्थ इव देहदेही विभागोऽयम् अविवेककृतः पुरा जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः राज चिकेजोक्ति प्रमुज पाणीना वक्त आधिमला नम भाक्षता राजोर्वाचा कव्युवाम्याप्त महिष्टौ च महीयस अवधूतेन वेषेण गूढाविहसमागतौ शरन्ती ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः मातृशां ग्राम्यबुद्धीनां भूतो योन्मत्तलिङ्गिनः ना कुमारो नारतरुभुरङ्गिरा देवलोसितः अपान्तरतमो व्यासो मार्कण्डेयोत गौतमः वसिष्ठो भगवान् रामः कपिलो ो भातरायणिः दुर्वासायाज्ञवल्क्यश्च जातुकर्ण्यस्तथारुणिः रोमशस्य वनो धत्त आसुरी सपतञ्जलिः ऋषिर्वेदशिरा बोध्यो मुनिः श्रुतधेवरुधध्वजः ये परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः तस्मात् युवां ग्राम्य पशेर्मम मूढधि यः अन्दे तमसि ज्ञानदीप उदीर्यथा अङ्गिराबुवाच अहं ते पुत्रकामस्य पुत्रधोऽस्म्यङ्गिरा नृप एष ब्रह्मसुथ साक्षात् नारदो भगवान् ऋषिः इत्तं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे अतदर्हम् अनुस्मृत्य महापुरुषगोचरम् अनुग्रहाय भवतः प्राप्ता वावामिह प्रभो ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति तदैव ते परं गृहमागतः ज्ञात्वा ते पुत्रमेव दतावहम् अधुना पुत्रिणां तापो भवतैवानुभूयते एवं धारागृहारायो विविधैश्वर्यशम्भः सप्तातयश्च विषयाश्चलाराज्य विभूतयः महीराजं बलं कोशो भृत्यात्मत्या सुहृज्जनाः सर्वेऽपि सूरसेने मे शोकमोघभयार्तिधाः गन्धर्वनगरप्रज्ञा स्वप्नमायामनोरथाः दृश्यमानाविनार्थ्येन न दृश्यन्ते मनोभवाः कर्म कर्मभिर्ध्यायतो नानाकर्माणि मनसो भवन् अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः देहिनो विवितक्लेशसन्तापकृ उदाहृतः तस्मात् स्वस्तेन मनसा विमृश्य गतिमात्मनः द्वैते ध्रुवार्तविश्रम्भं त्यजोपसममाविसा नारदौ उवाच एता मन्त्रोपनिषदं प्रती प्रयतो मम यां धारयन् सप्तरात्रा द्रष्टा शङ्घर्षणं प्रभुं यत्पादमूलमुपसृत्य नरेन्द्रपूर्वे सर्वादयो ब्रह्ममिमं द्वितयं विसृज्य सत्यस्तधीयं अतुलानदिकं महित्वं प्रापुर्भवानपि परम् नचिरातु पैति इति श्रीमद्भागवते महापुराणे षष्ठस्कन्ते चित्रकेतो सान्त्वनं नाम पञ्चदशोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराज के जय